मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायं सेवेन् भोगमोक्षवर्णनं श्रीगणेशाय नमः मुद्गल उवाच दक्षकन्याप्रसूतेभ्यः पितरः परमादृताः गणेशाराधनं तेभ्यो दधुः प्रत्येकमादराद नानामन्त्राण्यधान्यायं साधयित्वा च देवने गत्वा जपंश्च हे रम्भं ध्यात्वा तपसि संस्थितः ततो वर्षसहस्रेण परितुष्ठा गजाननः वरं दातुं तत्र भक्तिभावेन तोषितः तं तुष्टुः सर्वे बधाञ्जलिपुटाः प्रभुम् भक्तिभावसमयुक्ता गणेशं सर्वसिद्धिदं ऋषिपुत्रौचुः नमस्तेवप्रदुण्डाय भक्तरक्षकरूपिणे ब्रह्माकाराय देवाय ब्रह्मभूताय दे नमः मनोवागतिरूपाय मनोवारगम्यमूर्तये योगाकाराय योगाय योगिने ते नमो नमः निराकाराय विघ्नेशभक्तविघ्ननिवारक शान्तिरूपाय सर्वत्र शान्दिदाय नमो नमः सृष्टिरक्षणसंहारकारिणे ते नमो नमः सर्वूज्यावाय नमूर्त महीनायिने मोहदाइने मयाधारा मयाचा नमो नम अनंदयंदोदार पराक्रम आनंदनहस्तायसाक्षिन्नमस्तु वेदान्तागम्यरूपस्त्वं दृष्टो वैभाग्यगौरवाद स्तुतिं कर्तुं समर्थान वयं तव गजानन धन्यो नो जनको देव वयं धन्यतमाविभो विद्याव्रतं तपो मन्त्रोऽस्माकं गणपदर्शनाद वरदस् सेदे कदन्तभक्तिं देहि दृढां त्वयि यया मायामयोमोहो नश्येद्वै वरदप्रभो स्वस्वकार्येषु सामर्थ्यं देहि देवगजानन यद्यदिच्छामहे तत्तत्सफलं भवधु प्रभो यवमुक्त्वा पूजयन्त उपचारैरनेकषः युक्तास्तं सरो मांजा बभूविरे तदस्तानब्रवि देवो भवतां यच्चिकीर्षितं तदेव सफलं सर्वं भविष्यति न संशयः भक्तिर्मदीयपादेषु भविष्यति सुखप्रदा सामर्थ्यं स्वस्वकार्येषु दृढाख्यातिर्भविष्यति भवत्कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेद् यत् शृणोति नरोभक्रिया पठेद्वै तस्य सिद्धितं एकविंशतिवारं च पठेत् तावद्दिनानि यः स सद्यफलमाप्नोति चित्तेऽप्सिदमसंशयं एवमुक्त्वा गणाधीशस्तत्रैवान्दरधीयत ते जस्वस्वगृहे सर्वे ययोर्हर्षसमन्विताः स्त्रियश्च पुरुषाः सर्वे दक्षकन्या समुद्भवाः सुखिनः स्वस्वकार्येषु बभूवोर्ज्ञानसंयुताः शौनक उवाच अत्रिपुत्रमहाभागा ब्रह्मविष्णुशिवात्मकाः तच्चरित्रम् विस्तरतश्रोतुमिच्छामि तद्वद सुद उवाच ब्रह्मणोंशसमुद्भूतश्चन्द्रस्तपसि संस्थितः गणेशात्सवरं लब्ध्वा मृतरूपो बभूवः कलाभिः सर्वदेवानां पोषकः स तथा नृणां किरणैरण्यभावस्य सर्वदा भवद दत्तो विष्णुकलांशेन सम्भूतो योगधारकः क्रमेण योगमार्गेण नानाब्रह्मसु संस्थितः जडोन्मत्तपिशाचादिबालानन्दादिकामुने अवस्था साधयामास नाना, नाना भूमिप्रकाशिकाः तं दृष्ट्वा योगिनं सर्वे सेवायामभवन्पराः द्विजाद्याः सर्ववर्णाश्चाश्रमस्था भक्तिभावदः क्षणं विश्राममत्यन्तं नलेभे मुनिसत्तमः दत्तो विह्वलतां याद किं करोमीत्यचिन्तयद ततस्तेन जले विप्रममज्ये योगधारणाद प्रदीक्षयन्तस्तत्तीरे स्थिता सर्वे भवन् तदो दत्तेन सिद्ध्या च मोक्ष लक्ष्मीः प्रकाशिता गृहीत्वा वामभागे तां निःसृतो जलामध्यतः दक्षिणे मध्यकुम्भं सहस्ते धृत्वा पपौ स्वयं स्त्रिया सहविलासेन भोगयुक्तो बभूवः त्यक्तस्तैरत्रिजो योगी भ्रष्टोऽयमिति भावतः सुखेन योगमास्ताय संस्थितोऽत्रिसमुद्भवः गदे कियदि काले च देवासुरसमुद्भवं युद्धं दारुणरूपं वैजादं तत्र समीपदः दैत्याैर्देवास्तदोभग्ना पलायन्ददिशो दशा तत्राययुः सुसंहिदा रक्षरक्षे निजाब्रुवन् ततो सुरायुः सर्वे नग्नशस्त्रधराबलाद तान् दृष्ट्वा मरसंखास्ते पलायनपरापदैत्या दृष्ट्वा महालक्ष्मीं मोक्षरूपां सुरूपिणीं तां गृहीत्वा ययुः सर्वे धृत्वा मोघे नमस्तके मोक्षलक्ष्मीश्च तैस्तत्र यदि पादेषु सन्धृता तदा तेषां जयप्राप्तिर्जादासीन्नात्र संशयः अधो नित्यजसा स्पृष्ठा दैत्या देवैः प्रपीडिताः पलायन्तभयात् सर्वे पादालं विविश्युः पुनः मोक्षलक्ष्मीस्तदस्तेषां पश्यतां मुनिसत्तम अन्तर्धानं ययौ देवी ब्रह्मणि ब्रह्मभाविता शौनक उवाच सुदकूडं त्वया प्रोक्तं न बुद्धं तन्मयाधुना मोक्षलक्ष्मी शिरः स्पृष्टा दैत्यानां दुःखदा कथम् सुद उवाच सम्यक् त्वया ब्रह्मन् कथयामि यथा श्रुतं व्यासात् सर्वज्ञमुख्याच्च शृणुशुनकयत्नदः रजस्तमो युधा दैत्या भोगलक्ष्मीपरायणाः परद्रव्यहरा सर्वे परस्त्रीगामिनस्तथा परापकारकर्तारो जन्तुभ्यो दुःखदा सदा मद्यादिभिर्युक्ताः पापाचाराविशेषतः साधूनां मुनिमुख्यानां देवानां योगिनां तथा वेदशास्त्रपुराणानां निन्दका भयदायकाः इत्यादि बहुभिर्दोषै संयुक्तास्ते महासुराः सदा भोगप्रियाज्ञेया मुक्तौ नार्हा अधः कदा देहं सर्वप्रियाणां ते कर्दारं प्राप्य दैत्यभाः सर्वथा मुक्तिमुत्सृज्य भोगेच्छायां मनो ददुः अधस्तैश्चरणाखान्तैर्सदा मुक्तिर्विशेषतः भोगलक्ष्मीशिरोभीष्टैर्वन्दिता तत्र यत्नतः देवर्षयः सदा यत्नैर्मुक्तिमिच्छन्ति सर्वदा अधस्ते मस्तके देवीं धारयामासुरञ्जसा असुरैर्योगिसङ्गेन हृसा मुक्तिर्यदा मुने शिरस्यपि शुभासा न कारणं कथयामि दुराचारा ते दुराचारादिसंयुक्ता भोगबुद्धिभरायणाः तेभ्यः कुदसा शुभदा कुपितान्निकन्ति वै ब्रहीदा विषयासक्तैर्नेचिदा पश्य शौनक चरणाखादकैर्देवी ताडिता च तदा भवेद अधो भोगेप्सुभिर्विप्रवन्द्या भोगप्रदायिनी यदि मुक्तिर्दुराचार्यैर्धृता तान्नाशयिष्यति इति ते कथितं का सर्वं कारणं मुनिसत्तम मोक्षे तथा मोक्षेप्सुभिर्भोगलक्ष्मीश्चरणताडिता यत्र भोगप्रियो नित्यं तत्र मुक्तिर्न विद्यते यत्र मुक्तिः प्रिया नित्यं तत्र भोगः कुदो भवेद् वासानायुक्तरूपा च भोगलक्ष्मीर्न संशयः निर्वासनमयि मोक्षलक्ष्मीर्जानीहि शौनक ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौग्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते भोगमोक्षवर्णनं नाम सप्तमोऽध्यायः ओम्